वैशम्पाय न उवाच एवमुक्तस्तु गाङ्गे यस्तद्युक्तम् प्रत्यभाषत शृण्वताम् भूमिपालानां पितुरर्थाय भारत इदम् मे व्रतमादत् स्वसत्यम् सत्यवताम् वर नैव जातो न वा एवमेतत् करिष्यामि यथा त्वमनुभाषसे योऽस्याम् जनिष्यते पुत्रः भविष्यति इत्युक्तः पुनरेवाथतम् दाशः प्रत्यभाषत चिकीर्षुर्दुष्करम् कर्म भरतर्षभ त्वमेव नाथः सम्प्राप्तः शान्तनोरमि तद्युते कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय इदं इदम् तु वचनम् सौम्य कार्यम् चैव निबोधमे शीलेन वक्ष्याम्यहमरिन्दम यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण राजमध्ये प्रतिज्ञातमनुरूपम् तवैव नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन तवापत्यम् भवेद् तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः प्रत्यजानात्तदा राजन् पितुः प्रिय चिकीर्षया गाङ्गेयौ वाच दाशराज मे नरोत्तम ऋषयो वाथवा देवा च यानि, यानि हि शृण्वन्तु नास्ति वक्ता हि मत्समः वचनमादत्स्व सत्येन मम जल्पतः शृण्वताम् भूमिपालानाम् यद्ब्रवीमि पितुः कृते राज्यम् तावत्पूर्वमेव मया त्यक्तम् न अपत्यहेतोरपि च करिष्येत्यविनिश्चयम् अद्य प्रभृति मे दाश ब्रह्मचर्यम् भविष्यति अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि न हि मम किञ्चिदिहान् नृतम् यावत् प्राणाघ्रियन्ते वै मम देहम् समाश्रिताः तावन्न पित्रे कन्याम् प्रयच्छ मे परित्यज्याम्यहम् राज्यम् चापि सर्वशः ऊर्ध्वरेता भविष्यामि दाश सत्यम् प्रवीमिते वैशं तस्य तद्वचनम् श्रुत्वा सम्प्रहृष्टत नूरुह ददानीत्येव दाशो धर्मात्मा प्रत्यभाषत ततोऽन्तरिक्षेऽप्सरसो देवा सार्षिगणास्तदा अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ततः स पितुरर्थाय तामुवाच यशस्विनीम् अधिरोह रथम् मातर्गच्छावः स्वगृहाणिति वैशम्पायन उवाच एवमुक्त्वा तु भीष्मस्ताम् रथमारोप्य भाविनीम् आगम्यहास्ति न पुरम् शान्तनोः तस्यत तदुष्क कर्म प्रशस सुरन राधिपृथक् चब भीष्मय चाब्रुव्रुवा दुष्कम्मत भीष्मेण शातनु स्वंद मरणं तुष्टो दौ तस्म महात्मने ने मृत प्रभवताव्जीछत् ह्युा स्राप्य मृत्यु प्रभवता नघ ये महाभारते आदिर्वणि सभव पर्व सत्यवती लाभोपाख्या शततमोध्याय